स्वस्तिनो मिमीता श्रीगुभ्यो नम हरी ओ स्तिनो मिमृता स्स्ति्यदीरन स्वस्ति पूषा असुर दधा स्वस्ति दवाआ पृथ्वी सुचेतुना स्वस्तये वायुमुपप्रवां ब्रवामहै सोमम् स्वस्ति भुवनस्य यस्पतिः बृहस्पतिं सर्वगणं स्वस्तये ए स्वस्तय आदित्यासो वो भवन्तु नः विश्वे देवानो अद्या स्वस्तये ए वैश्वानरो वसुरग्निः स्वस्तये ए देवा अवन्मृत् विभवः स्वस्तये एष् नो रुद्र पास्त्वं हंसः स्वस्ति मित्रावरुणा स्वस्ति पथ्येरेवती स्वस्ति न इन्द्रस्याग्निश्च स्वस्ति नो अयीते कृधि स्वस्ति पन्थामनोचरेव सूर्या चन्द्रमसा आविव पुनर्दताग्नता जानता सङ्गमे महीन् स्वस्त्यनं तार्क्ष्यमरिष्टनेमिं महद्भूतं वायसं देवता आनाम् असुरघ्नमिन्द्रसखम् समस्सो बृहद्यसो नाममिवारुहेम अहो मुच गयं च स्वस्त्यात्रेयं मनसा च तार्क्ष्यं प्रयतपाणिः शरणं प्रपद्ये स्वस्ति सं बाधेष्वभयं नो अस्तु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ